अथ शततमः सर्गः तस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः क्रोधम् च द्विगुणम् चक्रे क्रोधाच्चास्त्रमनन्तरम् मयेन विहितम् रौद्रमन्यदस्त्रम् महाद्युतिः उत्स्रष्टुम् रावणो भीमम् राघवाय प्रचक्रमे ततः निश्चेरुर्गदाश्च मुसलानि च कार्मुकादीप्यमानानि वज्रसाराणि सर्वशः मुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा निष्पेतुर्विविधास्तीक्ष्णावाता इव युगक्षये तदस्त्रम् राघवः श्रीमाणुत्तमास्त्रविदाम्बरः जघानपरमास्त्रेण गाम्धर्वेण महाद्युतिः तस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना रावणः क्रोधताम् राक्षः सौरमस्त्रमुदीरयत् ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च कार्मुकाद् भीमवेगस्य आयुधानि च चित्राणि रावणस्य च मुमुखे तदस्त्रम् तु हतम् दृष्ट्वा रावणो राक्षसाधिपः विव्याधदशभिर्बाणै रामम् सर्वेषु मर्मसु स विद्ध्यो दशभिर्बाणैर्महाकार्मुकनिःसृतैः रावणेन महातेजानप्राकम्पतराघवः ततो विव्याधगात्रेषु सर्वेषु समितिञ्जयः राघवस्तु सुसङ्क्रुद्धो रावणम् बहुभिः शरैः एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली लक्ष्मणः सायकान् सप्त जग्राहपरवीरः तैः सायकैर्महावेगै रावणस्य महाद्वितिः ध्वजम् मनुष्यशीर्षम् तु तस्य चिच्छेदनैकथा सारथेश्चापि बाणेन शिरोज्ज्वलितकुण्डलम् जहारलक्ष्मणः श्रीमान्नैरतस्य महाबलः तस्य महा बाणैश्च चिच्छेदधनुर्गजकरोपमम् लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् जघानाप्लुत्य गदया रावणस्य विभीषणः हताश्वात्तु तदा वेगादवप्लुत्यमहारथात् कोपमाहारयत्तीव्रम् भ्रातरम् प्रतिरावणः ततः शक्तिम् महाशक्तिः प्रदीप्तामशनीमिव विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् अप्राप्तामेव ताम् बाणैस्त्रिभिश्चिच्छेदलक्ष्मणः अथोदतिष्ठत्सन्नादो वानराणाम् महारणे सम्पपात त्रिधाच्छिन्ना शक्तिः काञ्चन मालिनी स विस्फुंगा ज्वलिता महोल्क दिवच्युता तत सततरा काले दुरासदा जग्राह विपुला शक्ति दीप्यमातेजसा सा वेगिता बलवता रावणेन दुरात्मना जज्ज्वालाु महातेजा णसंशयमापन्नम् तूर्णमभ्यवपद्यत तम् विमोक्षयितुम् वीरश्चापमायम् यलक्ष्मणः रावणम् शक्तिहस्तम् वै शरवर्षैरवाकिरत् कीर्यमाणश्च रौघेण विसृष्टेन महात्मना न प्रहर्तुम् मनश्चक्रे विमुखीकृतविक्रमः मोक्षितम् भ्रातरम् दृष्ट्वा लक्ष्मणेन स लक्ष्मणाभिमुखस्तिष्ठन्निदम् वचनमब्रवीत् मोक्षितस्ते बलश्लाघिम् यस्मादेवम् विभीषणः विमुच्य राक्षसम् शक्ति विनिपात्यते एषा ते हृदयम् भित्त्वा शक्तिर्लोहितलक्षणा मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति मयेन माया विहिता ममोघाम् शत्रुघातिनी लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा रावणः परमक्रुद्धश्चिक्षेप चलनाद च सा क्षिप्ता भीमवेगेन वज्राशनि समस्वना शक्तिरभ्यपतद्वेगाल् लक्ष्मणम् वृणमूर्धनी तामनुव्याहरच्छक्तिमापतन्तीम् स राघवः स्वस्त्यस्तु लक्ष्मणा एति मोघा भवहतोऽद्यमा रावणेन रणे शक्तिः क्रुद्धे नाशीविशोपमा मुक्ताशूरस्य भीतस्य लक्ष्मणस्य ममज्जसा न्यपतत्सा ततो रावण वेगेन सुदूरमवगाढया शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः तदवस्थम् समीपस्थो लक्ष्मणम् प्रेक्ष्य राघवः हा। भ्रातृस्नेहान् महातेजा विषण्महृदयोऽभवत् समुहूर्तमिव ध्यात्वा बाष्पर्याकुलेक्षणः बभूव संरब्धतरो न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः चक्रे सुतुमुलम् युद्धं रावणस्य वधे धृतः सर्वयत्नेन महता लक्ष्मणम् परिवीक्ष्य च सददर्श ततो रामः शक्त्या महाहवे लक्ष्मणम् रुधिरादिग्धम् सपन्नगमिवाचलं राम विप्रहिताम् रावणेन बलीयसा यत्नतस्ते हरिः श्रेष्ठ नशे कुरवमर्दितुम् अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसा सौमित्रे सा विनिर्भिद्य प्रविष्टा धरणीतलम् ताम् कराभ्याम् परामृश्य रामः शक्तिम् भयावहा क्रुद्धो बलवान् विचकर्ष तस्य निष्कर्षतः रावणेन बलीयसा शराः सर्वेषु गात्रेषु पातिता बेदिनः अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् अब्रवीच्च हनोमन्तम् च महागपिम् लक्ष्मणम् परिवार्यैवम् तिष्ठध्वम् वा पराक्रमस्य कालोऽयम् सम्प्राप्तो मे चिरेऽप्सितः पापात्मायम् दशग्रीवो बध्यताम् पापनिश्चयः काङ्क्षितम् चातकस्यैव घर्मान्ते मेघदर्शनम् अस्मिन् मुहूर्ते न चिरात् सत्यम् प्रतिशृणोमि वः अरावणमरामम् वा जगद्रक्ष्यथ वा नराः राज्यनाशम् वने वासम् परामर्शो रक्षोभिश्च समागमम् प्राप्तम् दुःखम् महाघोरम् क्लेशश्च निरयोपमः अद्य सर्वमहम् त्यक्ष्ये निहत्वा रावणम् रणे यदर्थम् वानरम् सैन्यम् समानीतमिदम् मया सुग्रीवश्च कृतो राज्ये निहत्वा वालिनम् रणे यदर्थम् सागरः क्रान्तः सागरे सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः चक्षुर्विषयमागत्य नायम् जीवितुमर्हति दृष्टिम् दृष्टिविशस्येव सर्पस्य मम रावणः यथा वा वैन तेजस्य दृष्टिम् प्राप्तो भुजङ्गमः सुखम् पश्यत दुर्धर्षा युद्धम् वा नरपुङ्गवाः पर्वताग्रेषु ममेदम् रावणस्य च अद्य पश्यन्तु रामस्य रामत्वम् मम त्रयो लोकाः स गन्धर्वाः स अष्यामकास्राचरा सदवा कथयिष्य मूमिर्धरती सगम्य सदा लोके यहांध प्रवर्ति मुक्ताशितंचन भूषण आजघाने राो दश्रीव सदीतरजर्मुसल्चा रवण है अभ्यवर्षत्तदा रामम् धाराभिरिवतो यदः रामरावणमुक्तानामन्योन्यमभिनिघ्नता वराणाम् च शराणाम् विकीर्णाश्च रामरावणयोः शराः अन्तरिक्षात् प्रदीप्ताग्राणि त्रासनः सर्वभूतानाम् सम्बभूवाद्भुतोपमः सकीर्यमाणः शरजालवृष्टिभिर्मः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः